गणेशपुराणं क्रीडाखण्डम् अध्ययम् हण्ड्रड् अण्ड् फोर्टी श्रीगजानन उवाच पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरहं निर्माय चैनमवदं विष्णवे योगमुत्तमम् अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ततः परम्परायातं विदुरेणं महर्षयः कालेन बहुना चायं नष्टस्याच्चरमे युगे अश्रद्धयो ह्यविश्वास्यो विगीतव्यश्च भूमिप यनं पुराभवं योगं श्रुतवानसि मन्मुखाद गुख्यतमं वेदरहस्यं परमं शुभं परेण्य उवाच साम्प्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन प्रोक्तवान् कथमेनं त्वं विष्णवे योगमुत्तमं श्रीगजानन उवाच अनेकानि च ते जन्मान्यतीतानि ममापि च संस्मरे सर्वाणि न स्मृदिष्टव मत्त एव महाबाहोजादा विष्णवादयः सुराः मय्येव एव लयं यान्धिप्रलयेषु युगे युगे अहमेव परो ब्रह्मा महारुद्रोऽहमेव च अहमेव जगत्सर्वं स्थावरं जंगमं च अजो व्ययो सम्भूदात्मा नादिरीश्वर एव च आस्ता यत्रिगुणां मायाम् भवामि बहुयोनिषु अधर्मोपचयो पचयो, पचयो हि यदा भवेत् साधून् संरक्षितुं दुष्टांस्तदातुम् सम्भवाम्यहम् उच्य धर्मानि चयं धर्मसंस्थापयाम्यहम् अन्विदुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा वर्णाश्रमान्मुनीन् साधून् पालये बहुरूपदृक ं यो वेति सम्भूदिं मम दिव्यां युगे युगे तत्तत्कर्म च वीर्यं च मम रूपं समासदः त्यक्त्वाहं ममदा बुद्धिं न पुनर्भूस जायते निरीहानिर्भया रोषा मत्परा मद्यपाश्रयाः विज्ञानतपसा शुद्धा अनेके मामुपागताः येन येन हि भावेन संसेवन्ते नरोत्तमाः तथा तथा फलं तेभ्य प्रयच्छाम्यव्ययस्फुटम् जनास्युरितरे राजं मम मार्गानुयायिनः तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते कुर्वन्ति फलम् ी हे लोके शीघ्र सिद्धि हि कर्म जाम चो मर्णारज सतमोंश कर्मा शत संसृष्टा मृत्युलोक मया नृपा, कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः अनादिमेश्वरं नित्यमलिप्तं कर्मजैर्गुणैः निरीहं योऽभिजानादिकर्मबध्नादिनैवतं चक्रुकर्माणि बुद्ध्वैवं पूर्वं पूर्वं मुमुक्षवः वासनासहितादाद्यात् संसार कारणादृढाद अज्ञानबन्धनाजन्तुर्बुद्ध्वा युच्यदेखिलात् तदकर्मं च कर्मापि कथयाम्यधुना तव यत्र दा मौनं गदामोहादृषयो बुद्धिशालिनः तत्त्वं मुमुक्षुणा ज्ञेयं कर्म कर्म विकर्मणां त्रिविधानीह कर्माणि सुनिन्नैषां गदिप्रिया क्रियायामक्रियाज्ञानमक्रियायां क्रियामदिः यस्य स्यात्सहि मर्त्येऽस्मिल्लोके मुक्तो किलार्थदृक् कर्माकुरवियोगेन ह्यकर्माण्यारभेन्नरः तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् फलतृष्णाविहाय स्यात् सदा तृप्तो विसाधनः उद्युक्तोऽपि क्रियाम् कर्तुम् किञ्चिन्नैव करोति सः निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः केवलं वै गृहम् कर्मा अद्वन्द्वो मत्सरो भूत्वा सिद्धौ सिद्ध्यौ समश्चयः यथा प्राप्त्यैः सन्तुष्ट कुर्वन् कर्म न बध्यते अखिलाैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि यज्ञार्थं तस्य सकलं कृदं कर्म विलीयते अहमग्निर्हविर्होदाहुदं यन्मयि चार्पितं ब्रह्माप्तव्यं च ते नाथब्रह्मण्येव यतो रतः योगिनः केचिदपरिदिष्टं यज्ञं वदन्ति च ब्रह्माग्निरेव यज्ञो वै इति निरे वा संयमग्नौ परं भूप इन्द्रियाण्युपजुह्वति काग्निष्वन्ये तद्विषयान् शब्दादीनुपजुह्वति प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः निजात्मरसिरूपेऽग्नौ ज्ञानदीते प्रजुदी द्रव्येण तपसा वापि स्वाध्याएना के केचन तीव्रव्रतेन यो ज्ञने यज प्राणेपानमं तथा प्राणमानने प्रक्षिपे रुद्ध्वा गदीं चोभयोस्ते प्राणायामपरायणाः जित्वा प्राणान् प्राणगदीरुपजुह्वदितेषु च एवं नाना यज्ञरदा यज्ञध्वंसितपादकाः नित्यं ब्रह्म प्रयान्त्येदे यज्ञाशेषमृदाशिनः अयत्नकारिणो लोको नायमन्यकुतो भवेत् कायिकादित्रिधा भूतान्यज्ञान् वेदे प्रतिष्ठितान् ज्ञात्वा तानखिलान् भूपमोक्षसेऽखिलबन्धनाद सर्वेषां भूपयज्ञानां ज्ञानयज्ञः परो मदः अखिलं लीयते कर्मज्ञाने मोक्षस्य साधने तज्ञेयं पुरुषव्याक्र नतितः सताम् शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः नानासङ्गाञ्जनकुर्वन्नैकं साधुसमागमं करोदि तेन संसारे बन्धनं समुपैति सः सत्सङ्गाद्गुणसम्भोधिरापदां लय एव स्वहितम् प्राप्यते सर्वैरिहलोके परत्र च इतरतः सुलभम् राजन् सत्सङ्गोऽतीव दुर्लभः यत् ज्ञात्वा न पुनर्बन्धमेदि ज्ञेयं ततो यदः तद सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति अधिपापरदो जन्तुस्ततस्तस्मात् प्रमुच्यते विविधान्यपि कर्माणि ज्ञानाग्निर्दहधिक्षणाद् प्रसिद्धोऽग्निर्यथा सर्वं भस्मदां नयधिक्षणाद न ज्ञानं समदा मेधि आत्मन्येवावगच्छन्ति योगात् कालेन योगिनः भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयाद लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्य सौः भक्तिहीनो श्रद्धानसर्वत् संशयितु यः तस्य शम्नापि विज्ञातमिह लोकेन चापरे आत्मज्ञानरतं ज्ञाननाशिताखिल संशयं योगास्त्राखिलकर्माणं बध्नन्ति भूपतानिना ज्ञानखड्गप्रहारेण बलाद। सम्भूतामज्ञदाम्बला चित्त्वान्तः संशयम् तस्माद्योगयुक्तो भवेन्नरः ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थं शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे ब्रह्मार्पणयोगो नाम तृतीयोऽध्यायः ओम्